श्रीरङ्गनाथपादुकासहस्रं पद्धति एय्ट् निर्यातनापद्धतिः अनुष्टु अभिषेकोत्सवा तस्माद्यस्य निर्यातनोत्सवः अत्यरिच्य तथां वन्दे भव्यां भरदेवताम् उपजाति उपास्य वर्षाणि चतुर्दशत्वामुत्तारिकामुत्तरको सलस्थाः सनन्दनाद्यैरपि दुर्विगाहं सान्दानिकं लोकमवापुरग्र्यं पादावनि प्रत्ययिदो हनूमान् सीदामि त्वां चिरविप्रयुक्तां प्रणम्य पौलस्त्यरिपोरुदन्तं विज्ञापयामास विनीतवेशः तवाभिषेकान्मणिपादरक्षे मूले निषेकादिव वृद्धियोग्यात् जहुस्तदैव त्रिदशाङ्गनानां प्रम्लानदां पत्रलताकुराणि रथोद्धता सर्वतस्त्वदभिषेकवासरे सम्यगुद्धृत समस्तकण्टके राघवस्य विपिनेषु पदुगे यत्र कामगमदा व्यवस्थिता किं च दुर्दशभिरेव वत्सरैर्नित्यमेव मणिपादुके युवां पादयोस्त्रिभुवनाधिराजयोर्यौवराज्यमधिगच्छदं स्वयम् वसन्ततिलकं रामस्य राक्षसवध त्वरितस्य काले पादावनि प्रकटयन्निव पार्ष्णिगुप्तिम् आचित्रकूटमधिगम्य शशंसवार्तामव्याहदत्वदभिषेकमृदङ्गनादः भद्राणि देवि जगदां प्रतिपादयिष्यन् प्रागेव येन भवतीं भरदोऽभ्यषिञ्चद मन्ये कपीश्वरविभीषणयोर्यथावत् सन्धन्यदे स्म तदेव किलाभिषेकः संभिध्यमानतमसासरूपनीतैः संवर्धितस्तव शुभैरभिषेकतो यैः मन्ये बभूव जलधिर्मणिपादरक्षे रामास्त्रपकशिकाभिरशोषणीयः पादावनि त्वदभिषेचनमङ्गलार्थं भेरीषदं भृशमदाढ्यदयत्प्रतीतैः आकर्ण्य तस्य सहसा तुमुलं निनादं लङ्गाकपाटनयनानि निमीलितानि तापोद्गमस्त्वदभिषेकजलप्रवाहैरुत्सारिदस्त्वरिदमुत्तरकोसलेभ्यः लेभे चिराय रेघुपुङ्गवपादरक्षे लङ्गावरोधसुदृशां हृदयेषु वासम् आवर्जितं विधिविधा मणिपादरक्षे पद्मास्तनप्रियसुतेन पुरोहितेन आसीन्निदानमभिषेकजलं त्वदीयं नक्तञ्चरप्रणयिनीनयनोदकानाम् देवि त्वया स्नपनसम्पदि संश्रितायां दग्धे पुरे दशमुखस्य वलीमुखेन आसीत् तथा प्रभृति विश्वजनप्रदेधमभ्योऽग्निरित्यविदधम् वचनं मुनीना आयोध्यकैस्त्वदभिषेकसमिद्धहर्षैरात्मापि दाश्रुतिसुखं ननु ते तदानीं रामस्य राक्षसशिरो लवनेप्यशाम्यन्येषां ध्वनिर्विजयशङ्खरवो बभूव मालिनी प्रथयितुमभिषेकं पादुके तवगीनं दुरिदशमनदक्षे दुन्दुभौ ताड्यमाने सपदि परिगृहीतं साध्वसं देवि नूनं दशवदनधूनां दक्षिणैर्नेत्रकोशैः रघुपतिपदरक्षे रत्नपीढे यदा त्वामखिलभुवनमान्यामभ्यषिञ्जद्वसिष्ठः दशमुखमखिषीभिर्देवि बाष्पायिताभिस्तनयुगमभिषेक्तुं तत्क्षणादन्वमंस्थाः शार्दूलविक्रीडितं रामास्त्राणि निमित्तमात्रमिह लब्धाभिषेका स्वयं रक्षस्तक्षपयाञ्चकार भवती भद्रासनस्थायिनी यद्दोष्णामधिवेलदर्पदवधुज्ज्वालोष्मलानां तदा निष्पिष्ठैकलधौदशैलशिखरैः कर्पूरचूर्णायितम् श्रुत्वैवं हनुमन्मुखाद्रघुपदेः प्रत्यागतिं तत्क्षणादासी दद्भरदानुवर्तनवशादारूढकुम्भस्थलां कालोन्निद्रगधुष्णदानमदिराद्यध्विरेफध्वनिश्लाघाचाडुभिरस्तुतेव भवतीं शत्रुञ्जयकुञ्चरः वसन्ततिलकम् प्रत्यागदस्य भवतीमवलोक्य भर्तुःपादारविन्दसविधे भरतोपनीतां पूर्वाभिषेकविभवाभ्युचितां सपर्यां मध्ये सदा सदामकृदमैथिलराजकन्यां सम्प्रेक्ष्य मैधिलसुदा मणिपादरक्षे प्रत्युद्गदस्य भवतीं भरतस्य मौलौ निर्दिश्य सा निभृतमञ्चलिना पुरस्तात्ताराधिका प्रियसखी रशिषत्प्रणन्तुं तुल्ये विदेवी रघुवीरपदाश्रयत्वे पूर्वाभिषेकमधिगम्य गरीयसी त्वं तेनैव खल्वभजदां मणिपादरक्षे रक्षप्लवङ्गमपदी भवरीं स्वमूर्ध्ना निर्वृत्तराक्षसचमो मृगया विहारो रङ्गेश्वर स खलु राघववंशगुप्ता वंशक्रमादुपनदं पदमाददानो मान्यं पुनस्त्वयि पदं निदधेत् स्वकीयम् तत्तादृश्योश्चरणयोः प्रणिपत्य भर्तुः पौरास्त्वया विधृतयोः प्रतिपन्नसत्वाः प्राप्ताभिषेकविभवामपि पादुके त्वामानन्दभाष्पसलिलैपुनरभ्यषिञ्चन् माधस्त्वयैव समये विषमेऽपि सम्यग्राजन्वतीं वसुमतीमवलोक्य रामः सञ्जीवनाय भरतस्य समग्रभाकृते सत्यप्रतिश्रवतयैव चकारराज्यं पादावनिप्रदिगदस्य पुरीमयोध्याम् कौलस्त्यहन्धुरभिषेकजलार्द्रमूर्तेः अंशे यथार्हमधिवस्य निजैर्यशोभिकस्तूरिकेव निहिता वसुधा त्वयैव या सौ विश्वंभरा भगवदी विधृता भवत्या विन्यस्यतां रघुपदेर्भुजशैलशृङ्गे भूयोऽपि तेन सखितां भवदी बभार निस्तीर्णदुःखजलधेरनखस्य देवी त्वत्सम्प्रयुक्त रघुनाथपदान्वयेन सद्य दुर्निरीक्षा मुखर दुर्निष साम्राज्य संपदपरा भरत निर्गत देवी भरताजलिपूय सगतवती पुरषोत्तम पदेव भद्रमख मणिपादरक्षे दुश्चकार जगदाम मालिनी मलिनी रघुपतिमप्य स्वोचिदेत्नपीठे प्रगुणमजास्व पादुके पादीठम तादृशी बहुमस्ते तादशी निीखलु तारतम्यं गीति अनुवृत्तरामभावे निर्विष्टचक्रवर्तिपदाम् अधुनापि रङ्गनाथ स चमत्कारं पदेन भजति त्वाम् इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे अष्टमी निर्यातना पद्धतिः